गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् थर्टी क उवाच ततस्तु नवमे मासि पूर्णे सासूदबालकं चारुचन्द्राननं पद्म शोभाजिन्नयनं शुभं किरीडकेयूरधरं कोडिसूर्यसमप्रभम् प्रवालाधरशोभाढ्यं चतुर्बाहुर्विराजितं मुक्ताहारधरं चारुकङ्कणैरुपशोभितं परशुं कमलं माला मोदकांश्च करैर्दधद द्वजाङ्गुशाब्जविलसत्पादपद्मसमन्वितम् किङ्गिणी जालविलसच्चारु गुल्फयुतं शुभं फालचन्द्रं कोडिचन्द्रनिभं वह्निसमं प्रभं एवं दृष्ट्वा स्वरूपं सा चकम्बे हर्षनिर्भरा किमिदं तेज उदिदं नयनाच्छादकं महद कोऽसि त्वं वद मे चेदो नन्तयस्व कृपां कुरु इत्युक्त्वा तं नमश्चक्रे स्मरन्ती पूर्वकं तदऊचे महो मूर्त्तिर्मा मादर्विमना भव गुणेशोऽहमनेकानां ब्रह्माण्डानाम् विदायकः असङ्ख्यादे मे वदारा न ज्ञायन्दे मरैरपि इच्छया सृष्टिसंहारपालनानि करोम्यहं त्रिधारूपं विधायाहं विश्वस्य शिवनन्दिनी त्रयुगेव तिर्याहम् त्वद्गृह्ये अनेकानि चरित्रानि कृतानि सिन्धुनाशनम् मयूरेश्वरनामाखं षड्रभुजोऽर्जुनवर्णकं तदा मया वचो दत्तं पुनः भवेयं सेवकश्चाहं सिन्धूरान्मोचिता मया द्विजरूपेण सहसा स्मर सर्वं शुचिस्मि ते तदापि तनयस्तेऽहं तदिदं सत्यवचनं मया सम्पादि भूभारं च हरिष्यामि सिन्धूरं च महाबलं सेवनं च करिष्यामि तव मादर्गजाननः विख्यातोऽहं भविष्यामि भक्तानां कामपूरकः क उवाच एवं श्रुत्वा वचो गौरी स्मृत्वा सर्वं पुरातनं नत्वा तुष्टावदेवेशं विश्वेशं विघ्ननाशकं गौर्युवाच निर्विकल्पचिदानन्दखनं ब्रह्मस्वरूपिणं भक्तप्रियं निराकारं साकारं गुणभेदत न माम्यहमधिस्थूलमणुभ्योऽनुतरं विभुम् अव्यक्तं व्यक्रिमापन्नं रजसत्त्वतमोगुणं मायाविनं मायिनं च सर्वमायाविधं नित्यं सर्वाधारं परात्परम् चतुर्नामपि देवानां मानसस्याप्यगोचरं महद्भाग्यं मम विभो सत्त्वं मे पुत्रतां गतः प्रदीक्षन्ध्या मम विभो प्रत्यक्षं दर्शनं गतः इदानीं त्वद्वियोगो मे न स्याद्देव तथा कुरु एवं वदन्त्या तस्यां तु देवोरूपान्तरं दधौ चतुर्भुजं बालचन्द्रं शुण्डादण्डविराजितम् अनेकभूषणयुधं चिन्तामणियुधं हृदि दिव्याम्बरं दिव्यगन्धं सिद्धिबुद्धियुधं तदा रुरोदबालवच्चाज्ञोददृशे गिरिजातुतं शुशोचबहुथा तन्वी निधिकेन हुतो मम न बालस्त्रिषु लोकेषु त्रिष्टशुण्ठा विराजितः ब्रह्मादयोः शिष्यन्ति लोकाश्चेक्ष्यैदृशं एवं बहुविधं शोकं श्रुत्वा गाच्छङ्करो गृहं नगणस्थं शिशुं गृह्य प्राहदां शृणु मे प्रिये अनादिनिधनो देवशुण्ठादण्डविराजितः यत्र कुण्डाश्चदुर्वेदा शास्त्राणि मुनयो वराः प्रपंचे गुंफिता प्रि सर्वांतरियाम्यनें ब्रह्मा चकस्यूपा चुषु युगेशु दशभुजो ना विनायक्रुद त्रेदायुगे शुक्लवर्णषड्भुजोऽसौ मयूरराट सिन्धुं हत्वा पालयत्सोवती यत्स्वालये प्रिये स एवायं रक्तवर्णश्च दुर्बाहुविराजितः अवतीर्णो गृहे नौ, नौ सिन्धूरं निहनिष्यति देवो भूभारं आयु्य मूषक दूभारम चनाजानन यैलोक्येख्या्यलियुगे दिवी धूम्र के दुरीद प्रधान चुबुच्चुनेचिरांभु निशम्य शिववाक्यं स उवाच बालकस्फुटं बाल उवाच सम्यग् बुद्धं मे सम्यगुक्तं त्वया शिव अवतीर्णस्तव गृहे सेवाकर्तुं च सिन्धुरं निहन्तुं च निहन्धारं देवानां सर्वभूभुजाम् मर्दनं भू धराणां च त्रैलोक्य जयशालिनम् अत्वा तं करिष्यामि च शङ्कर भक्तानां कामपूरश्च वेदकर्मप्रवर्तकः भविष्यामि वरेण्यस्य वरदो ज्ञानदायकः अयि भक्तिर्भवेत्तस्य मम ध्यानपरायणः देवद्विचातिथीनां च पूजकः पञ्चयत्नकृत पुराणश्रवणे सकृतस्वाचार सत्यवां शुचिः पुष्पिका नाम यस्यापि पत्नी धर्मपरायणा पदिव्रता पदि प्राणा पदि, पदि वाक्यपरायणा ताभ्यां द्वादशवर्षाणि तपस्तप्तं सुदारुणं तयोर्मयावरोधतये श्येवां पुत्रदां ध्रुवं पुष्पिकायां प्रसूतायामद्यैव राक्षसैषिशुः नीतश्च त्यक्ष्यते प्राणां तस्मान् मां नयतत्र एवमाकर्ण्य तद्वाक्यं शिवो हर्षसमन्वितः नानावाङ्मयपुष्पैस्थं पूजयामास भक्तिदः इति श्रीगणेशपुराणे क्रीडाखण्डे गजानना विर्भावो त्रिंशाधिकशततमोऽध्यायः ॐ